द्व्यधिकशतमोऽध्यायः वैशम्पायन उवाच हते चित्राम् गदे भीष्मो बाले भ्रातरि कौरव पालयामास तत्राज्यम् सत्यवत्याम् मते स्थितः सम्प्राप्तयौवनम् दृष्ट्वा भ्रातरम् धीमताम् वरः भीष्मो विचित्रवीर्यस्य विवाहायाकरोन्मतिम् अथ काशिपतेर्भीष्मः कन्यास्तिस्रोप्सरोपमाः शुश्रावसहिताराजन् वृण्वाना वैस्वयम्वरम् ततः सरथिनाम् श्रेष्ठो रथेनैकेन शत्रुजित् जगामानुमते मातुः पुरीम् वाराणसीम् प्रभुः तत्र राज्ञः समुदितान् सर्वतः समुपागतान् तदर्शकन्यास्ताश्चैव भीष्मः कीर्त्यमानेषु राज्ञाम् तदा नामसु सर्वशः एकाकिनम् तदा भीष्मम् वृद्धम् शान्तनुनन्दनम् सोद्वेगा इव दृष्ट्वा कन्याः परमशोभनाः अपाक्रामन्तताः सर्वा वृद्ध इत्येवचिन्तया वृद्धः परमधर्मात्मा वलीपलितधारणः किम् कारणमिहायातो निर्लज्जो मिथ्या मिथ्याप्रतिज्ञो लोकेषु किंवदिष्यति भारत ब्रह्मचारीति भीष्मो हि वृथैव प्रथितो भुवि इत्येवम् प्रब्रुवन्तस्ते हसन्ति स्म नृपाधमाः वैशम्पायनोवाच क्षत्रियाणाम् वचः भीष्मश्च क्रोधभारत भीष्मस्तदा स्वयम् कन्या वरयामासताः प्रभुः वाच चमही उवाच चमहीपालान् राजञ्चलद निःस्वनः रथमारोप्यताः कन्या भीष्मः वरह आहु यदानम कन्यानाम् गुणवन्भ्यः स्मृतम् बुधः अलङ्कृत्यधा धाशक्ति प्रदाय च धनान्यपि परे कन्या मिधुने गवामपि वित्तेन कथिते नान्ये बले नान्येऽनुमान्य प्रमत्तामुपयन्त्यन्ये स्वयमन्ये च विन्दते आर्षम् विधिम् पुरस्कृत्य दारान्विदन्ति चापरे अष्टमम् तमथो वित्त विवाहम् कविभिर्वृतम् स्वयम्वनम् तु राजन्याः प्रशंसन्त्युपयान्ति च प्रमथ्यतु हृतामाहुर्ज्यायसीम् धर्मवादिनः ता इमाः पृथिवी बलादितः ते यतध्वम् परम् शक्या विजयायेतराय वा पाला युद्धाय कृतनिश्चयः एवमुक्त्वा महीपालान् काशिराजम् च वीर्यवान् सर्वाः कन्याः सकौरव्यो रथमारोप्य च स्वकम् आमन्त्र्य च स तान्प्रायाच्छीघ्रम् कन्याः प्रगृह्यताः ततस्ते पार्थिवाः सर्वे समुत्पेतुरमर्शिताः संस्पृशन्तः स्वकान् बाहून् दशन्तो दशनच्छदान् तेषामाभरणान्याशु त्वरितानाम् विमुञ्चताम् आमुञ्चताम् च वर्माणि सम्भ्रमः समहानुभूत् ताराणामिव सम्पातो बभूव जनमे जय भूषणानाम् सर्वशः सवर्मभिर्भूषणैश्च प्रकीर्याद्भिरितस्ततः सक्रोधामर्षजिह्मभ्रूकषायीकृतलोचनाः सूतोपकृप्तान् रुचिरान् सदश्वैरुपकल्पितान् अधानास्थाय वीरा ते वीराः सर्वप्रहरणान्विताः प्रयान्तमथ कौरव्यमनुषस्त्रुरुदायुधाः ततः समभक्त्युद्धम् तेषाम् तस्य च भारत एकस्य च बहूनाञ्च तुमुलम् लोमहर्षणम् ते त्विषून् दशसाहस्रांस्तस्मिन् युगपदक्षिपन् अप्राप्तांश्चैव तानाशु भीष्मः सर्वांस्तथान्तरा अच्छिन्नक्षरवर्षेण महता ततस्ते पार्थिवाः सर्वे सर्वतः परिवार्यतम् वर्षेणेवाद्रिमम् बुदाः सतम् बाणमयम् वर्षम् शरैरावार्य सर्वतः ततः सर्वान्महीपालान् पर्यविध्यात्रिभिस्त्रिभिः एकैकस्तु ततो भीष्मम् राजन् विव्याधपञ्चभिः सचतान्प्रतिविव्याध द्वाभ्याम् द्वाभ्याम् पराक्रमन् तद्युद्धमासीत् तुमुलम् घोरम् देवासुरूपमम् पश्यताम् लोकवीराणाम् शरशक्तिसमाकुलम् सधनूंषिध्वजाग्राणि वर्माणि च शिरांसि चिच्छेदसमरे भीष्मः शतशोधसहस्रशः तस्यातिपुरुषान्याल्लाघवम् रथचारिणः रक्षणम् चात्मनः सङ्ख्ये शत्रवोऽप्यभ्यपूजयन् तान्विनिर्जित्य तुरणे सर्वशस्त्रभृताम् वरः कन्याभिःसहितः प्रायाद् भारतो भारतान प्रति ततस्तम् पृष्ठतो राजच्छाल्वराजो महारथः अभ्यगच्छद मे यात्मा भीष्मम् शान्तनवम् रणे वारणम् जघने भिन्दन् दन्ताभ्यामपरो यथा वासितामनुसम् प्राप्तो यूथपो बलिनाम् वरः स्त्रीकामस्तिष्ठतिष्ठेति भीष्ममाहसपार्थिवः शार्वराजो महाबाहुरमर्षेण प्रचोदितः ततः सः पुरुषव्याघ्रो भीष्मः परबलार्दनः तद्वाक्या क्रोधात् विधूमोऽग्निरिवज्ज्वलन् विततेषु धनुष्पाणिर्विकुञ्चितललाटभृत् क्षत्रधर्मम् समास्थाय व्यपेतभयसम्भ्रमः निवर्तयामास रथम् शाल्वम् प्रतिमहारथः राजानः सर्व एव ते प्रेक्षकाः समपद्यन्त भीष्मशासमागमे तौ वृषा विवनर्तन्तौ बलिनौ वासितान्तरे अन्योन्यमभ्यवर्तेताम् बलविक्रमशालिनौ ततो भीष्मम् शान्तनवम् शरैः शतसहस्रशः शाल्वराजो नरः श्रेष्ठः समवाकिरदाशुगैः पूर्वमभ्यर्थितम् दृष्ट्वा भीष्मं शाल्वेन ते नृपाः विस्मिताः समपद्यन्त साधु सा द्वितिचाब्रुवन् लाघवम् तस्य दृष्ट्वा समरे सर्वपार्थिवाः अपूजयन्त सहृष्टा वाग्भिः शाल्वम् नराधिपम् क्षत्रियाणाम् ततो वाचः श्रुत्वा क्रुद्धः शान्तनवो भीष्मस्तिष्ठतिष्ठेत्यभाषत सारथिम् चाब्रवीत्क्रुद्धो या हि यत्रैष पार्थिवः यावदेनम् निहन्यद्य भुजङ्गमिव पक्षिराट्